अथ त्रिंशः सर्गः हनुमानपि विक्रान्तः सर्वम् शुश्रावतत्वतः सीताया स्त्रिजटायाश्च राक्षसीनाम् च तर्जितम् अवेक्षमाणस्ताम् देवीम् देवतामिव सहस्राणि सुबहून्ययुतानि च दिक्षु सर्वासु मार्गम् ते सेयमासादिता मया चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता गूढेन चरता तावदवेक्षितमिदम् मया राक्षसानाम् विशेषश्च पुरी निरीक्षिता राक्षसाधिपतेरस्य प्रभावो रावणस्य च यथा प्रमेयस्य सर्वसत्त्वदयावतः समाश्वासयितुम् भार्याम् पतिदर्शनकाङ्क्षिणी अहमाश्वासयाम्येनाम् पूर्णचन्द्रनि भाननाम् अदृष्टदुःखाम् दुःखस्य नह्यन्तमधिगच्छती यदि ह्यहंसतीमेनाम् शोकोपहतचेतनाम् अनाश्वास्य गमिष्यामि दोषवद्गमनम् भवेत् गते हि मयि तत्रेयम् राजपुत्री यशस्विनी परित्राणमपश्यन्ती जानकी जीवितं त्यजेत। यथा च स महाबाहुः पूर्णचन्द्रनिभाननः समाश्वासयितुम् न्याय्यः सीता चाभिभाषितम् कथम् नु खलु कर्तव्यमिदम् कृच्छ्रगतो ह्यहम् अनेन रात्रिशेषेण यदि नाश्वास्यते मया सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् रामस्तु यदि पृच्छेन्माम् किम् माम् सीताब्रवीद्वचः किमहम् तम् प्रतिब्रूयाम सीता सन्देशरहितम् मामितस्त्वरया गतम् निर्दहेदपि काकुत्स्थः क्रोधतीव्रेण चक्षुषा यदि वोद्योजयिष्यामि भर्तारम् रामकारणात् व्यर्थमागमनम् तस्य ससैन्यस्य भविष्यति अन्तरम् त्वहमासाद्य राक्षसीनामवस्थितः शनैराश्वासयाम्यद्य सन्तापबहुलामि माम् अहम् ह्यतितनुश्चैव वानरश्च विशेषतः वाचम् चोदाहरिष्यामि मानुषीमिह संस्कृता यदि वाचम् प्रदास्यामि द्विजातिरिव संस्कृता रावणम् मन्यमाना माम् सीता भीता भविष्यति अवश्यमेव वक्तव्यम् मानुषम् वाक्यमर्थवत् मया सान्त्वयितुम् शक्या नान्यथेयमनिन्दिता सेयम्य मे रूप जानकी भाषित तथा रक्षो ततो जात परित्रासा पूर्व कुर्यान मनस्विनी जाना नामां कुमनस्वनीक्षी रावण कामिण सीतया शब्दे सहसाराक्षसी गण हरण घोर सै यादप सक्षक्षिप्य विता वधे चा ग्रहणे चुत्नम महाबला तम्मा शाखा प्रशाखाश स्कंधाशोत्तम शाखिना दृष्टि चं भवु पिशंकता मम रूपम् च सम्प्रेक्ष्य वने विचरतो महत् राक्षस्यो भयवित्रस्ता भवेयुर्विकृतस्वराः ततः कुर्युः समाह्वानम् राक्षस्यो रक्षसामपि राक्षसेन्द्रनियुक्तानाम् राक्षसेन्द्र निवेशने तेषूलशरनिस्त्रिंश विविधायुधपाणयः आपतेयुर्विमर्देऽस्मिन् वेगेनोद्वेगकारणात् संवृद्धस्तैस्तु परितोविधमे राक्षसम् बलम् शक्नुयाम् न तु सम्प्राप्तुम् परम् पारम् महो दधेः माम् वा गृह्णीयुरावृत्य बहवः शीघ्रकारिणः स्यारियम् चागृहीतार्था मम च भवेत् हिंसाभिरुचयो हिंस्युरिमाम् वाजनकात्मजा विपन्नम् स्यात् ततः कार्यम् राम सुग्रीवयोरिदम् उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते सागरेण परिक्षिप्ते गुप्ते वसति जानकी विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे नान्यम् पश्यामि रामस्य सहायम् कार्यसाधने विमृशंश्च न पश्यामि यो ह ते मयि वानरः शतयोजन विस्तीर्णम् लङ्घयेत महोदधिम् कामम् हन्तुम् समर्थोऽस्मि सहस्राण्यपि रक्षसा न तु शक्ष्याम्यहम् प्राप्तुम् परम् पारम् महोदधेः असत्यानि च युद्धानि संशयो कश्च निःसंशयम् कार्यम् कुर्यात् प्राज्ञः स संशयम् एष दोषो महान् हि स्यान्म सीताभिभाषणे प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे भूताश्चार्था विरुध्यन्ति देशकालविरोधिताः विक्लवम् दूतमासाद्यतमः यथा अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते घातयन्ति हि दूता कार्याणि दूताः पण्डितमालिनः न विनश्येत् कथम् कार्यम् वैक्लव्यम् न कथम् मम लङ्घनम् च समुद्रस्य कथम् नु न वृथा भवेत् कथम् नु खलु वाक्यम् मे शृणुयान्नोद्विजेत च इति सञ्चिन्त्य हनुमांश्चकारमतिमान् राम क्लिष्टकर्माण सुबंधुमनुकर्तयन नईनाजयतचेतनावाकूणा वरिष्ठ सेम सेमन शुभा धर्मयुक्ता वचना समर्पयन श्राविष्या सर्वाण मधुरा प्रब्रुवंगि श्रद्धा से यहा तथा सदधे इति स बहुविधम् महाप्रभावो जगति पतेः प्रमदामवेक्षमाणः मधुरमपि इत्यार्षे श्रीमद् आदिकाव्ये सुन्दरकाण्डे त्रिंशः